नमो नमः स्वागतं नमो नमः सर्वेभ्यः नमो नमः सर्वेषां स्वागतम् आरम्भं कुर्मः वीणा भगिनी प्रार्थनया आरम्भं कुर्मः वा वदति वा अस्तु भगिनि वदामि वक्रतुण्डमहागाय कोटिसूरे समप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा कान्ताकारम् भुजकशयनम् पद्मनाभम् सुरेशं। विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिहृद्यानयोग्यम् वन्दे विष्णम् भवभयहरम् सर्वलोकैकनाथम् हरिः ओम् श्रीकृष्णाय नमः हरि ओम् अस्तु अद्य दिने वयम् अस्माकं विषयः प्रचलत् विषयः अस्ति तव तु प्रत्ययान्तरूपाणि तत्तु वयं पठितवन्तः गतसप्ताहे तत् कथम् अस्ति रूपाणि तत, तत भूतकालं सूचयति एवं सर्वं वयं दृष्टवन्तः अद्य प्रथमतः तु वयं पुस्तकं प्रति अनन्तरं वाक्यरचनां कुर्मः स्क्रीन् शेर् करोमि अशीतितमं पृष्ठमस्ति इति अहं मन्ये तत् तव तु प्रत्ययान्तरूपं पुल्लिङ्गे तव तु प्रत्ययान्तरूपं स्त्रीलिङ्गे तत् वयं पठिष्यामः अनन्तरं कथां प्रति गमिष्यामः तत्र एवमस्ति एतावत् पर्यन्तम् वयं कृतवन्तः अहम् भुञ्जे अहम् भुक्तवान् इति भवति वर्तमानकाले भूतकाले अधुना तवतु तु प्रत्ययन्तरूपाणि हा तत्र पुल्लिङ्गे रूपाणि तत लट् लकाररूपम् यदि पठति इति भवति तदा एकवचनम् द्विवचनम् तव तु प्रत्ययान्तरूपम् एकवचनम् द्विवचनम् बहुवचनम् भवति पठितवान् पठितवन्तौ पठितवन्तः तथा अहम् उक्तवती आसम् तद् भवान् कथं चलति भवान् भवन्तौ भवन्तः नकारान्त अतः तत् पठितवान् इति रूपं भवति चेत् पठितवान् पठितवन्तौ पठितवन्तः हा सः पठितवान् तौ पठितवन्तौ ते पठितवन्तः एतादृशी रचना भवति अग्रे पश्यामः अस्तु प्रथम तगस्ट महोदय भाई पटती वो प्रत्याय तथा यथा आरभ भूरयत प्रत्याया प्रत्याया िङ्गेरूपम् एकवचनं द्विवचनं बहुवचनं पठति सः पठितवान् तौ पठितवन्तौ ते पठितवन्तः इच्छति सः तौ इष्टवन्तौ ते इष्टवन्तः करोति सः कृतवान् तौ कृतवन्तौ ताव, ते कृतवन्तः गायति सः गीतवान् तौ गीतवन्तौ ते गीतवन्तः भारती सः धृतवान् तौ धृतवन्तौ ते धृतवन्तः भजति सः भक्तवान् तौ भक्तवन्तौ ते भक्तवन्तः क्रीडति सः क्रीडितवान् तौ क्रीडितवन्तौ ते क्रीडितवन्तः नयति सः नीतवान् तौ नीतवन्तौ ते नीतवन्तः गर्जति गर्जति सः गर्जितवान् तौ गर्जित गार्जितवन्तौ ते गार्जितवन्तः भ्रमति सः भ्रामितवान् तौ भ्रमितवन्तौ ते भ्रमितवन्तः शृणोति सः श्रुतवान् तौ श्रुतवन्तौ हां तौ बोधितवन्तौ ते बोधितवन्तः लिखति सः लिखितवान् तौ लिखितवन्तौ ते बोधित ते लिखितवन्तः हसति सः हसितवान् तौ हसितवन्तौ ते हसितवन्तः नमति सः नतवान् तौ नतवन्तौ ते ज्ञातवन्तः ददति सः दत्तवान् तौ दत्तवन्तौ ते दत्तवन्तः पृच्छति सः पृष्टवान् तौ पृष्टवन्तौ ते पृष्टवन्तः ब्रू ब्रू क्षते सीक्षितक्षव ते ईक्षित स लधवा तौ लब आश्रितवान् तौ आश्रितवन्तौ ते आश्रितवन्तः युध्यते सः युद्धवान् तौ युद्धवन्तौ ते युद्धवन्तः उत्तमम् अस्ति महोदय उत्तमम् उत्तमं बहु सम्यक् बहु सम्यक् धन्यवादः भगिनी अस्तु न तत् लठ् लग लकाररूपम् अत्र पश्यन्तु एकमत्र वक्तुम् इच्छामि तत्र पठ पठित इति भवति इत्युक्ते तत्र इडागम आगच्छति हा यथा वयं दृष्टवन्तः तत् तव तु प्रत्यय तव तु तत्र क अपगच्छति अनन्तरं तवत् इति अवशिष्यते तत्र इतोपि तत्र पठ योग ईयोग तवद् हा तत्र इडागम इति आगच्छति कुत्रचित इडागमः आगच्छति कुत्रचित् तत्र इडागमः न दृश्यते यतोहि तत्र गायति तत्र गीतवान् गीतवन्तौ गीतवन्तः एवं तत्र इडागम न दृश्यते हा भज तत्र भज जकारस्य क एतत् परिवर्तनं भूत्वा तत्र भक्तवान् भक्तवन्तौ भक्तवन्तः इति दृश्यते तत्र गर्जति तत्र पुनः एकवारम् इडागम दृश्यते नीधातु तत्र नीतवान् तत्र न इडागमः भ्रमति तत्र भ्रमधातु तत्र पुनः एकवारम् इडागम इत्युक्ते नियमाः सन्ति नियमान् स्वीकृत्य इडागमः भवेत् न भवेत् सर्वेषु स्थलेषु इडागमस्य प्रसक्ति इति न केषुचित् स्थलेषु तत्र केषुचित् स्थलेषु तत्र इडागमः भवति केषुचित् स्थलेषु न भवति इति स्मरणे कृपया सर्वे अस्माभिः तत् स्मर्तव्यं सर्वेषु इडागम इति नास्ति अधुना आस्ते इति धातु आस् इति हा अत्र पश्यन्तु आस्ते इति रूपं तत् आत्मनेपदी प्रथमपुरुषे एकवचनान्तरूपम् आस्ते तत्र किं भवति आस्दातु इडागमः भवति आसितवान् भवति लभ्धातोः कृते अपि लभधातु लभते ते इति अन्ते आत्मनेपदिरूपम् आत्मनेपदीधातु तत्र न इडागम लव् लब्धवान् इति भवति इक्ष कृते तत्र इडागमः भवति इक्षितवान् भवति ब्रूधातु तत्र ब्रूधातोः कृते एकं सूत्रम् अस्ति ब्रूवो वचि तेन किं भवति ब्रूधातोः कृते वच् इति आदेशः भवति हा तत्र आर्धधातुकप्रत्ययपरे वच् इति आदेशः इति सूत्रं वदति तेन किं भवति ब्रूधातुः उक्तवान् उक्तवन्तौ उक्तवन्तः एतादृशानि रूपाणि भवन्ति एतत् सर्वं पुनः पुनः पुनः पुनः तस्य पठनं भवेत् तेन स्मरणे आगच्छति हा एतदस्ति तव तु प्रत्यान्तपुल्लिङ्गे रूपाणि अधुना तव तु प्रत्यान्तस्त्रीलिङ्गे रूपाणि यथा वयं दृष्टवन्तः तत्र पठति इति धातु स्वीकृत्य पुल्लिङ्गे पठितवान् पठितवन्तौ पठितवन्तः परन्तु स्त्रीलिङ्गी कथं भवति पठन्ती हा नदी एव नदी नद्यः पठन्ती पठन्त्यौ पठन्त्यः एवं भवति पश्यन्तु तव तु प्रत्ययन्तलिङ्गिरूपाणि कथं भवति पिबति अस्ति चेत् पीतवती पीतवत्यौ पीतवत्यः इति दृ दृश्यते इति दृश्यते अधुना पिब इति इस् टु ड्रिङ्क् पिब तत्र पिब धातो पिबति इति केवलं लक, लकाररूपम् परन्तु आर्धधातुप्रत्यय तवतु प्रत्यये वा क्तप्रत्यय तत्र किं भवति पि एव तत्र पिबति इति पिब आदेशः न भवति अतः तत्र पीतवती पीतवत्यौ पितवत्यः पी एतानि रूपाणि भवति अस्तु अधुना वीणा भगिनी भवती पठति वा तव रूपं श्रीलिङ्गे इति हा भगिनी प्रयत्नं करिष्यामि <laughs> लट्लकारूपम् एकवचनं द्विवचनं बहुवचनं पिबति पीतवती पीतवत्यौ पीतवत्यः करोति कृतवती कृतवत्यौ कृतवत्यः वदति उदितवती उदितवत्यौ उदितवत्यः अत्र एकं तत्र बहु किमपि इति न किन्तु तत्र, तत्र एकसूक्ष्मविषयः अस्ति व्याकरणे सम्प्रसारणमिति सम्प्रसारणम् इत्युक्ते यथा वयं यण्सन्धि इति वदामः तत्र किं भवति इकस्थाने यण् आदेशः इति भवति तत्र रिवर्स् आफ् इको यणचि इत्युक्ते तत्र सम्प्रसारणे किं भवति वकारस्थाने उकार भवति तत्र वदति एतस्य उदितवती इति भवति तत्र उदितवती उदितवत्यौ उदितवत्यः इति भवति उदितवान् उदितवन्तौ उदितवन्तः वस्थाने ओ आदेश् अस्तु भगिनि पश्यति दृष्टवती इति दृष्टवत्यौ दुश्ट, दृष्टवत्य अधुना अत्रापि पश्यतु यथा अहं पिब पी, पी धातु विषये उक्तवती तत्र पिब इति आदेशः भवति पा धातु मूलतः पा इति धातु तस्य पिब इति आदेशभूत्वा पिबति इति रूपं केवलं लट्लकारे हा परन्तु तथैव दृश्य इति धातु मूलतः तस्य पश्यति इति रूपं केवलं लट्लकारे लट्लकारे इत्युक्ते लट् लट् लोट् लङ् विधिलन् तत्र चत्वारः लकाराः सन्ति तत्र एव पश्य इति आदेश अन्येषां तत्र तवतु प्रत्यय वा त प्रत्यय दृष्टः तत्र पश्य इति आदेशेन तत् पश्यवती वा पश्यवान् इति न तत्र दृश्य तवतु दृष्टवान् वा दृष्टवती दृष्टवान् दृष्टवती दृष्टवान् पुल्लिङ्ग दृष्टवती श्रीलिङ्ग दृष्टवती दृष्टवत्यौ दृष्टवत्यः इति भवति अस्तु भगिनी इतोपि गच्छति गतवती भविष्यति भगिनी आम् गतवती भवती कुत्र कुत्र ग गमिष्यति uh, अत्र अत्र अत्र, अत्र कदा इषु गमीय मां क्षम तत्र इत्युक्ते किं भवति तत्र गमधातु हा गमधातु तत्र गम गच्छ भवति मूलतः गमधातु गच्छ कदा भवति लट् लकारे भवति गच्छति लङ् लकारे भवति अगच्छत् हा लोट्लकारे गच्छतु भवति विधिलिङ्गलकारे गच्छेत् इति भवति परन्तु त प्रत्यय गतः तव तु प्रत्यय गतवान् गतवती एवम् अस्तु इति अस्तु गतवती गतवत्यौ गतवत्यः क्षिपति क्षिपितवती वा क्षिप्तवती क्षिप्तवत्यौ क्षिप्तवत्यः जपति जपितवती जपितवत्यौ जपितवत्यः नयति नीतवती नीतवत्यौ नीतवत्यः तिष्ठति खित्तवती स्थितवती स्थितव स्थ अत्रापि पश्यन्तु मूलतः स्था इति धातु हा स्था इति धातु मूलतः परन्तु लट् लकारे तिष्ठति तिष्ठ इति आदेश तिष्ठति भवति अनन्तरं लङ्लकारे अतिष्ठत् इति भवति अनन्तरं लकारे तिष्ठतु इति भवति विधिलिङ्ग्लकारे भवति ह परन्तु तव तु वा तप्रत्ययः स्थितः तप्रत्यय स्थितवती वा स्थितवान् तव तु प्रत्ययः हा अधुना अत्र पश्यतु भगिनी सर्वेषां कृते एव वदामि तत्र तव तु प्रत्ययान्तरूपाणि यदा वयम् उपयोजयामः तदा कः लाभः स्थितवतीति स्वीकृति अतः <coughs> अधुना अहं सा स्थितवती अहं स्थितवती त्वं स्थितवती परन्तु यदा अहम् अतिष्ठत् रूपं स्वीकरोमि व्यङ्ग्लकारे तत् स्थितवतीति भूतकाल दर्शयति तत्तु सम्यक् परन्तु अस्माकं समीपे व्यङ्ग्लकार भूतकालस्य कृते अस्ति परन्तु सा अतिष्ठत् अधुना सा भिन्ना भिन्नरूपम् अहं कृते भिन्नरूपम् हा तत् मनसि तत् भवेत् लङ्लकारस्य तालिका मम मनसि भवेत तदा एव अहं वक्तुं शक्नोमि परन्तु तव तु प्रत्यान्तरूपाणि उपयोजयाम तत् चिन्तनस्य का आवश्यकता एकवचनान्तं सा तिष्ठवती अहं तिष्ठव अहं त्वम् तिष्ठवती सम्यक् तत् मनसि एक रूपाणि एकवचनान्तं द्विवचनान्तं द्वौ वचनान्तमेव भवेत् रूपपरिवर्तनं पुरुषदृष्ट्या न भवति अत्र तत् लाभः तव तु प्रत्यान्तरूपाणि सुलभतया वयं वक्तुं शक्नुमः अस्तु पूजति पूजितवती कूजितवत्यौ कूजितवत्यः कू इत्युक्ते किं भगिनी कूजति कूजन्तं कूजन्तं राम रामेति का का वदति आरुह्य कवितां शाखां वन्दे वाल्मीकिकोकिलं कोकिला कूजितवती कूजनम् अतः तत् आरुह्यकवितां शाखा वन्दे वाल्मीकिकोकिलम् इति वदति खलु तादृश मा, तादृशं माधुर्यं तत्र वर्तते कूजन्तं राम रामेति राम राम इति कुजनम। अस्तु भगिनि पृच्छति पृष्टवती वा पृष्ट पृष्टवती पृष्टवती पृष्टवती वा पृष्टवती अह पृष्टवती पृष्टवत्यौ पृष्टवत्यः कथयति कथितवती कथितवत्यौ कथितवत्यः अत्रापि पश्यतु कथयति इति अस्ति परन्तु कथितवती इति नास्ति खलु कथितवती कथि कथितवत्यौ किमर्थं कथयतिवती कथितवती इति नास्ति यतोहि तत् कथधातु कथधातु इति चुरादिगणे दशमे गणे दशमे गणे, uh -huh. गणे तत्र चोरयति कथयति हा भक्षयति य दृश्यते किमर्थं तत्र यकार अस्ति रूपे तत्र यकार आगच्छति दशमे गणे गणे, यकार आग, आग यकारसहित्यरूपाणि परन्तु तव तु प्रत्यययोजयामः तदा किं भवति कथ दातु इडागम अस्ति कथ योग इयोग तव तु तेन कथितवती एवमस्ति य अपगच्छति य एतस्य कोऽपि प्रसक्तिः नास्ति किञ्चित् क्लिष्टमस्ति अस्ति भगिनी क्लिष्टमिति नास्ति परन्तु वारं वारं वयं पठामः चेत् अवगमनं भवति तत् आरम्भे तत् इति भासते <laughs> क्लिष्टता तत्र परन्तु अनन्तरं वयमेव <laughs> स्वयमेव तत्र अध्ययनं कर्तुं शक्नुमः इति अस्ति आ, आ, अस्तु मनसि किम् आगत अस्तु लट्लकारे कथयति अधुना तव तु तत् श्रीलिङ्गि तत् वती भवती कथयितवती वा इति मनसि आगच्छति कथं य कुत्र अपगच्छति य किमर्थं नास्ति तत्र गुणगणः इति नास्ति चुरादिगणः भवतु नाम चुरादि भ्वादि कस्मिन्नपि गणे भवतु परन्तु तव तु प्रत्ययस्य तस्य विचारः एव नास्ति तव तु प्रत्यय तव इडागमं भवेत् वा इडागमं न भवेत् सोरि कथितवती अस्तु <laughs> mm. भगिनि mm. शृणोति श्रुतवती श्रुति श्रुतवत्यौ श्रुतवत्यः हसति हसितवती mm. हसितवत्यौ हसितवत्यः चरति mm. चलितवती चलितवती hmm. चलितवत्यौ चलितवत्यः क्रीडति क्रीडितवती क्रीडितवत्यौ hmm. क्रीडितवत्यः गायति गीतवती गीतवत्यौ गीतवत्यः तपति तपति hmm. त्यौ तप्तवत्यः शेते चैतवती शैतवत्यौ चैतवत्यः श्वेते hmm. इत्युक्ते uh, huh. जानीते ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः अत्रापि पश्यतु मूलतः धातु ज्ञा एवम् अस्ति परन्तु <laughs> लट्लकारे ज्ञास्थाने ज्ञार्जा इति एकं सूत्रं <laughs> तेन किं भवति जा इति आदेशः भवति अतः तत्र लट्लकारः लङ्लकारः लोट्लकार विधिनिङ्गलकारोर्जा जा, जन इति आदेशः भवति परन्तु तवतु तु प्रत्यये वा तप्रत्यये तत्र कोपि आदेशः न अतः ज्ञातः तप्रत्यय ज्ञातवान् ज्ञातवती एवं भवति mm -hmm. अस्तु अतः <laughs> <आत्र, laughs> जनाः वदन्ति तव तु प्रत्ययान्तरूपाणि <laughs> अतीव सुलभानि तत्र तेषां कृते किमपि मा चिन्तनं मास्तु ध्तुं स्वीकृत्य तत्र इडागम भवति वा एवं चिन्तनं कृत्वा वयम् उपयोग्यं कर्तुं शक्नुमः इति विचारः इ इति अस्ति खलु एकवारं लिखित्वा दर्शिनीयस् क्लास् आमां तत् कथमस्ति तत् पठ इति धातु यदा स्वीकुर्मः तव तु प्रत्यय तत् कथमस्ति तवतु तु प्रत्यय क अपगच्छति उ अपगच्छति तवत् एव अवशिष्यते तत्र अधुना पठ योग तवत् परन्तु मध्ये इ इति आगच्छति इ तत्र इठ् इत, इति आगच्छति इठ् इत, इठ् आगमः इडाग पठ इडागम् इडागम. इडागम. इडागम. इडागम. तेन किं भवति पठितवत् इति प्रातिपदिकं पठितवान् एवं भवति इडागम इति न तत्र हो, केचन धातवः तत्र इडागमस्य अनुकूलता तत्र इडागम भवति हा सर्वेषु स्थलेषु इडागम भवति इति न अस्तु अस्तु भगिनि एकनिमिषम् आगच्छतु अत्र पुनः हा पठतु यतते यत् यतते तत्र यत्तवत्यः इति बहुवचनान्तरूपं दृश्यते खलु इत्युक्ते तत्र किं भवितुम् अर्हति एकवचनान्तरूपं यत्तवत्यः त डबल् त दृश्यते खलु अतः किं भवितुमर्हति चिन्तयतु वत्यः किं भवति वत्यः एतस्य वति भवति यत्तवत्यौ यत्तवत्यः आं योग्यम् आन् द स्क्रीन् अस्ति सत्य एकनिमिषं योग्यं लभते लब्धवती लब्धवत्यौ लब्धवत्यः लब्ध लब्धवती तत्र पश्यतु तत्र इडागमः अस्ति वा नास्ति खलु लभी लभीवती लभी लभीतवती लभी एवं नास्ति लब्धवती इति भवति भगिनि धन्यवादः भगिनि आम् धन्यवादः उत्तममस्ति परन्तु उत्तमम् अधुना यह भवान भवती किं किं कृतवान् कृतवती इति पञ्चवाक्यानि लिखत अत्र पश्यतु ह्यः इत्युक्ते पाष्ठेज् भूतकाल हा तव तु प्रत्यान्तरूपाणि भूतकालम् बोधयति अतः यः किं किं कृतवान् भवान् वा भवती किं किं कृतवती पञ्चवाक्यानि तत्र अपेक्षितानि पश्यामः गीताभगिनी भवती वक्तुं शक्नोति वा गीता भगिनी वा का भगिनी उक्तवती अहं वक्तुं न शक्नोमि गीता गीताञ्जलि द्वयोः मध्ये एकनिमिषं तत् पश्यामि गीताभगिनी न शक्यते इति उक्तवती गी गीताञ्जलिभगिनी गीता भवान् वदति वक्तुं शक्नोति वा हा भगिनि हरि ओं भगिनी हा वदतु हरि ओं वदतु एक मिनिट् भगिनि अहं ह्यः एकं चित्रमन्दिरं गतवती भगिनी उत्तमं ह्यः एकं चित्रमन्दिरं गतवती इतोपि चलनचित्रं दृष्टवती भगिनि आम् अहं यः एकं चलचित्रं दृष्टवती उत्तमम् अद् अधुना वाक्यद्वयम् अहं यः देवालयं गतवती किमपि वक्तुं शक्यते अहं स्तोत्रं पठितवती यः अहम् एकं स्तोत्रं पठितवती योग्यगिनी एकं स्तोत्रं भगिनी पठितवती इति योग्यमस्ति हा धन्यवादः धन्यवादः श्यामलाभगिनी भवती रचयति वा पञ्चवाक्यानि अस्तु भगिनि हा वदतु पञ्चवाक्यानि हा अहम् अहं अहम् अद्यदिनं यो योगासन यः येडे यः अहं यः अहं ह्यः एकं योगासनं कृतवती योग्यम् इतोपि अहं परह्यः पाठं लिखितवती योग्यम् अहं परह्यः परह्यः ग्रीडाङ्गणं करोति किं करोति ग्रीडां करोति न अवगतं मया वक्तुमिच्छति ऐ एम् प्लेयिङ्ग् ऐ प्ले हा तत् क्रीडितवती इति भवती क्रीडितवती अहं पाप पापा ह्यः क्रीडां क्रीडितवती क्रीडितवती इति वदति क्रीडितवती क्रीडितवती अद्य अद्य यः यः अहं यः पाकं करोति यः पाकं कृतवती कृतवती भूतकाले योग्यमस्ति योग्यमस्ति अहं पप्परह्यः द्विचक्र द्विचक्रिकायां चल चलति चालितवती द्विचक्रकां चालितवती आम् पर्याप्तं योग्यम् उत्तममस्ति उत्तमम् अस्ति अधुना रिक्तस्थानानि तव तु प्रत्ययान्तरूपैः हा वदतु अधुना गीताञ्जलि वा भगिनी भवती एव करोति वा रिक्तस्थानानि तव तु प्रत्यान्तरूपै पूरयतु हा भगिनि अहम् आश्रमं गतवान् त्वं तन्त्रकथा गतवती गतवान् गतवान? गतवान। गतवती वा गतवान् तत्र इति त्रिषु ले लिङ्गेषु समानः एव तद् गतवती अपि भवितुमर्हति गतवान् अपि भवितुमर्हति अत्र एव लाभः तत्र अस्माकं तद् गतवती इति रूपमपि सम्यक् भवति गतवान् अपि सम्यक् भवति योग्यं हा वयं वयम् एकस्य रुद्धस्य जीवनकथां श्रुतवती श्रुतवती अधुना वयमस्ति इत्युक्ते बहुवचनान्तरूपं भगिनि श्रुता श्रुताः श्रुतामः श्रु श्रुतवन्तः कथम् अत्र पश्यतु सर्वे पठितवान् पठितवन्तौ पठितवन्तः नो चेत् पितवती पितवत्यौ पितवत्यः तत् अत्र भवती श्रुतवत्यः वा श्रुतवन्तः परन्तु बहुवचनान्तरम् भवेत् श्रुतवत्यः वा श्रुतवन्तः नास्ति सर्वमेकम् अस्ति भगिनी एकवचनं बहुवचन द्विवचन मध्यमपुरुष उत्तमपुरुष आम् आम् समान एव समानमेक अस्ति सः पूर्वं योगशास्त्रं पठितवान् सः पठितवान् योग्यं पठितवान् योग्यं सम्यक् तत्र निपुणा निपुणा निपुणातां hmm. प्राप्तवन्तः तत्र प्राप्तवान् सः इति अस्ति खलु स प्राप्तवान् हा तत्र प्राप्त प्राप्त भिन्नरीत्या वक्तुं शक्नोति तत्र निपुणतां प्राप्तवन्तः अपि वा सम्यक् सम्यक् तत्र बहुवचनम् अपि भवितुमर्हति एकवचनमपि भवतु तत्र निपुणतां प्राप्तवान् एकः अस्ति चेत् बहवः सन्ति चेत् तत्र निपुणतां प्राप्तवन्तः इति भवति योग्य किन्तु, किन्तु जीवने तद् न आनीतवान् तत्र योगशास्त्रे निपुणता परन्तु जीवने तस्य प्रात्यक्षिकरूपेण तत्र जीवने तद् न आनीतवान् सः तेन अग्रिमे तेन खं प्राप्तवन्तः प्राप्तवान् प्राप्तवान् कुत्रापि ज्ञानं न कुत्रापि ज्ञानं न ददाति दत्तवान् दत्तवान् आम् दत्तवान् पश्यन्तु योगशास्त्रं तु पठितवान् निपुणतामपि प्राप्तवान् परन्तु जीवने तस्य उपयोगं न कृतवान् तेन दुःखम् एव प्राप्तवान् सः दा दा दानस्य तत्र ज्ञानस्य दानं भवेत् ज्ञानस्य सञ्चयं किं भवति वृद्धिम् आयाति स्तयं गयाति तत् शय शयं सञ्चयात् शया, शया, किं भवति शयमेव क्षयम् आयाति परन्तु वृस्य वृद्धिः भवति परन्तु सञ्चयात् क्षयमायाति तत्र क्षयम् एव शय एव भवति ज्ञानस्य केवलं संचयन ज्ञानदानं न करणीयं तेन किं भवति कुत्रापि ज्ञानं न दत्तवान् सः अनन्तरं किं भवति अनन्तरम् अनन्तरं वृद्धाश्रमम् आग आग आगतवान् आग, आगतवान् वृद्धाश्रमम् आगतवान् किं त्वम् एतां घटनां श्रुतवान् श्रुतवान् भगिनी भगवान् त्वं श्रुतवान् श्रुतवान् यूयं तत्र स्थापितवन्तौ स्थापितव स्थापितवन्तौ यूयं सारि स्थापितवन्तः स्थापितवन्तः स्थापितवत्यः त्वं युवां युया बहुवचन यदा स्त्रिया श्रीलिङ्गी भवेत् चेत् श्रीलिङ्गत्यः अग्रिमे पुल्लिङ्गे स्थापितवा स्थापितवन्तः आम् आम् आवाम् एतास्मिन् विषये चिन्तनम् ौरुौ एवं खलु आवाम् अहम् आवां वयं तत् आवां श्रीलिङ्गी अपि भवितुमर्हति आवां पुल्लिङ्गी अपि भवितुमर्हति यदा श्रीलिङ्गी भवेत् तत् किं भवति कृतवती कृतवत्यौ कृतवत्यः कृतवत्यौ उल्लिङ्गि भवति चेत् कृतवान् कृतवन्तौ कृतवन्तः इत्युक्ते तत् आवां कृतवत्यं वा कृतवन्तौ वयं योग्यमस्ति भगिनि हा भगिनि योग्यमस्ति वयं हा भगिनि वयं जीवने पठ वयं जीवने योगशास्त्रम् आचर आचरवन्तः आर् आचरवत्यः आचरितवन्तः इत इडागम भवति रूल्स् रिगार्डिङ्ग् इत्य पश्यतु तत्र प्रत्ययः मा धातु तत्र केचन धातवः तत्र एकं सूत्रमस्ति केचन धातवः इडागमस्य कृते अनुकूलः अनुकूलाः सन्ति केचन प्रत्ययाः इडागमस्य कृते अनुकूलः तत्र आर्ददातुकसेङ्ग् वलादेः एवं सर्वमस्ति परन्तु अधुना तत्र गीतासोपानं तत् प्रथमं तर् अधुना वयं प्रथमे स्तरे खलु तत् केवलं स्मरणे वन... आचरितवन् आचरितवन्तः एवं भवेत. अनन्तरं यथा अग्रे गच्छामः तदा सूत्राणि अपि पठिष्यामः तत्र तेषामपि पठनं भवेत् भविष्यति निश्चयेन नियमाः तु सन्ति नियमाः व्याकरणशास्त्रे नियमाः तु सन्ति एव तत्र सूत्रपाठे पाणिनीयसूत्रपाठे नियर्ली अबौट् फोर् थौसण्ड् सूत्राणि सन्ति भगिनि अहमपि योजयिष्यामि अस्मिन् अस्मन् कक्षे आमां व्याकरणकक्षा आगच्छति आमां भवान् भवती अपि भवान् पाठयति वा अहं uh, ट्वेण्टि ट्वेण्टि ट्वेण्टि फ़ोर् बेच् मध्ये शिक्षिका शिक्षिका अस्मि अधुना ट्वेण्टि ट्वेण्टि फ़ैव् ट्वेण्टि सिक्स् बेच् मध्ये अहं शिक्षिका मम समीपे समयः नास्ति अतः अहं तत्र न योजितवती परन्तु ट्वेण्टि ट्वेण्टि फोर् बेच् मध्ये अधुना अस्माकं सार्वधातुकप्रक्रिया प्रचलति तत्र वयम् आरब्धवन्तः ट्वेण्टि ट्वेण्टि फोर् अक्टोबर् मध्ये अक्टोबर् मध्ये वयम् आरब्धवन्तः <laughs> पाठने पठने पाठयामः चेत् एव ज्ञानवृद्धिं तत भवति तत् दृढीकरणं भवति पुनः पुनः तत्र पुनरावर्तनं भवति तेन पाठने तत्र पाठने इति मम आनन्दस्य विषयः तेन एव दृढीकरणं भवति मनसि दृढीकरणम् अपि पुण्यमपि लभते लब, वा भगिनी विद्यादानं श्रेष्ठदानमस्ति वा भगिनी आमामां आम, निश्चयेन निश्चयेन पुण्यं निश्चयेन तत्तु भवति सम्यक् पठति भगिनि पठितवान् अधुना अत्र श्यामलाभगिन्याः पिता तत्र अस्ति खलु वेङ्कटमहोदय तत्र अस्ति मम कक्षा अस्तु भगिनि बहवः जनाः तत्र किं वदामि तज्ज्ञजनाः तत्र सन्ति मम वर्गे छात्ररूपेण ज्ञानिनः सर्वे इति अस्तु <laughs> hmm. हा, हा तदा अस्तु वयं जीवने योगशास्त्रम् आचरितवन्तः वा आचरितवत्यः हा अग्रिमे कुरुक्षेत्रे कौरवपाण्डवाः युद्धितवा युद्धितवन्तः युद्धतवन्त युद्ध युद्धवन्तः तत्र इडागम मास्तु युद्धवन्तः युद्धवन्त अर्जु अर्जुनः सैन् सैन्यम् ईक्षितवान् योग्यम् अधुना एकं तत्र आ, एवं कुर्मः वा अग्रिमे अग्रिमे वर्गे कुर्मः परन्तु एतत् सर्वम् अग्रिमे वर्गे परन्तु तस्मात् प्राक् एकः प्रश्नः पृष्ट्वा वयं कथां प्रति गच्छामः वाक्यं लिखामि अगोष्टमहोदय भवान् पठति वा वाक्यम् एवं अधुना अत्र अहं परिवर्तनम् अत्र लट्लकारे अस्ति तत्र अहं परिवर्तनं कृतवती भक्ताः इति लिखितवती अधुना वदतु भक्ताः भक्ताः एव अव प्रत्यापूत तूतका प्रत्याप तथमता तो भक्त दा क्रिया भूतका अब तो प्रत्याप योजय अंगुष्ट मोदय किमस्ति भक्तः इति अस्ति अत्र वयं पठितवन्तः खलु अत्र पश्यतु सर्वे अत्र अस्ति पुल्लिङ्गे पश्यन्तु नमति नतवान् नतवन्तौ नतवन्तः दृश्यते अवश्यमहोदय नमति इत्युक्ते नमनं नमस्कारं करणीयं हा नमति नतवान् नतवन्तौ नतवन्तः अतः अत्र भवति भक्तः देवं दतवान् इति भवति अधुना एकः भक्त इति भक्ताः सन्ति तदा कथं परिवर्तनं भवति महोदय भक्ताः नतवन्तः इति भक्ताः देवं नतवन्तः अस्तु स्पष्टमस्ति सर्वेषां स्पष्टमस्ति एतत् एकं स्वीकुर्मः तत्र नम इति धातु नम इति धातु अस्ति तत्र तवत् प्रत्यय तत्र पुनः एकवारं सूत्रं भूत्वा तत्र म अपगच्छति म एतस्य लोपः एव भवति तेन अनुनासिकस्वरः अस्ति अनुनासिकस्वरः अन्तिमे आगच्छति अतः तस्य लोप भूत्वा नत एव अवश्य नतवत् नतवान् नतवती इति भवति हा अनुनासिकस्वर अन्तिमे आगच्छति अतः तस्य लोपः भवति मकार इति अनुनासिक खलु पफबभम् कखगगङ् ङ अन्तिमवर्ण अनुनासीत् चष जझञ् इति अनुनासीत् पफबभम् म अनुनासीत् तथ दधन् न अनुनासिक तस्य लोपः भवति अस्तु अस्तु भगिनि धन्यवाद भगिनि अधुना इतोपि एकं स्वीकुर्मः हा अत्र गजः गज़ा सिंहं गजःस्ति अरण्ये सः गजः सिंहम् पश्यति गजः सिंहं पश्यति वर्तमानकाले लट्लकारे अधुना विना भगिनी करोतिवा वा गजाः सन्ति चेत् किं भवति हा भगिनि गजाः सिंहं दृष्ट वर्तमानकाले एव प्रथमतः गजः सिंहं पश्यति गजाः सिंहं वर्तमानकाले एव गजाः सिंहं पश दृष्टवन्त <laughs> भूतकाले मास्तु वर्तमानकाले एव गजाः सिंहं पश्यन्तः पश्यन्ति इति कश्चन्ति वदति वदति वदतः वदन्ति पठति पठतः पठन्ति पश्यति पश्यतः पश्यन्ति हा अस्तु अधुना भूतकाले का गजः सिंहं भूतकाले गजः सिंहम् अपश्यत् mm. हा तत्र तु लङ् लकारे परन्तु तवतु, आ, तवतु तु सत्यं योग्यम् अपश्यत् तव तु प्रत्यये किं भवितुमर्हति लिखितवान् पश्य मूलधातुः कः पश्य इति आदेशरूपेण आगच्छति मूलधातु कः दृश् इति धातु दृष्ट दृष्टवान् अस्तु भगिनी अधुना भूतकालं गजाः सन्ति चेत् किं भवति दृष्टवन्तः बहु सम्यक् अत्र पश्यन्तु केवलं तस्य तत् अवगमनार्थं वदामि अधुना अध्ययनस्य विषयः इति न परन्तु पश्यदा तु अस्ति यथा अहम् उक्तवती पश्यदा तु लट्लकारे लङ् लकारे भवति अपश्यत् इति उक्तवती खलु लङ् लकारे हा तत् लठ्लकारे लङ्लकारे विधिलिङ्ग् लकारे लोट्लकारे परन्तु मूलधातुः अस्ति दृश्य इति दृश्य एतस्य पश्य आदेश चत्वारः लकारः तेषां कृते परन्तु अन्येषु स्थलेषु यदा तवतु प्रत्ययः इति स्वीकुर्मः कथं भवति दृश् तवत् इति तवतु प्रत्यय तवत् अधुना षकारस्य स्थाने षकार आदेशः तत्र भ्रश व्रजसृजराज शशांशः इति षकार आदेश दृशवत् अधुना षट् तेन किं भवति तकारस्य तकार तत् इति अस्ति स्तुत्वम् इति भवति तेन एतस्य स्थाने ट भवति अतः दृष्टवान् इडागम न भवति वा भवति अत्र पश्यन्तु तत्र कथमस्ति एकवारम् तत्र सन्धिविषयकः मनसि एक तत्र अस्माकं मनसि भयः अस्ति कथं भवति कथं भवति परन्तु यदा पश्यतु इत्यादि हा एकं वदामि इटि आदि इत्यादि इत्यादि हा तत्र इत्यादि भवति खलु इत्यादि हा इकार इत्यादि भवति यदा सन्धिविषये अस्माकं ज्ञानं न्यूनमस्ति इति इति चिन्तयति वयं न जानीमः तत्र इकारस्य यकारः भवति इति तदापि इति आदि इति आदि इति आदि इति आदि इत्यादि इत्यादि पश्यन्तु तत्र एकम् एकं एक वेदा इति आदि भिन्नरीत्या पृथक् रीत्या इति आदि इति आदि अधुना रिड्यूस् द टैम् ग्याप् इति आदि पृथक् रीत्या इति आदि इत्यादि इत्यादि इत्यादि इत्यादि य कम्स् आटोमेटिकलिक् एतादृशं चिन्तनं कृत्वा पठन्तु तत् बहु सुलभः तत्र सुलभः इत्युक्ते सुलभः इति न परन्तु अस्माकं रुचि रुचिवर्धनं भवति शनैः शनैः तत्र किञ्चित् शनैश्चनै शनैः शनै परन्तु तत्र किं वदामि निरन्तरता तत् भवेत् इति मार्गे वयं त्यजामः त्यजामः चेत् किमपि न लभ्यते निरन्तरता पठने भवेत् अस्तु कथां प्रति गच्छामः अधुना अस्माकं कथापि अद्यदिनस्य कथापि रुचकराः रुचकरा कथा अस्तु हा आरम्भं करोतु आगस्ट् महोदय भवान् करोति वा अस्ति वा आगस्ट् महोदय अस्ति वा आगस्ट् महोदय नास्ति ध्वनिः श्रूयते वा मम ध्वनिः श्रूयते वा श्रूयते भगिनी श्रूयते श्रूयति न हा पठति वा महोदय एकनिमिषं हा पठतु हा आरम्भं करोतु जलचषक उपम्येन अत्र जलचषक उपम्येन उपमा उपमा इत्युक्ते जलचषक तत्र प्राध्यापकः अस्ति पश्यन्तु तस्य हस्ते जलचषकमस्ति जलचषकस्य उपमा उपमेन इत्युक्ते उपमा इत्युक्ते तत्र सिमिलारिटि हा अनालोगि कृत्वा सः किमपि वक्तुम् इच्छति जलचषकौप्यं जलचषक उपम्येन इति पठतु अधुना कश्चन कचन प्राध्यापक mm. कक्षायाठयन आस mm. हसक चषके जलम mm. हस्तेन हषक गृह सर्वान् छात्रान् सकृत् दृष्ट्वा सः अपृच्छत् एतस्य चषकस्य भारः कियान् स्यात् शतग्रातः शतग्रातः द्विशतग्रामितः अग्रिमं वाक्यमपि पठतुं नार्हामः वयम् यावत् चषकस्य तोलनं न भवति तावत् भारस्य निष्कृष् निष्कृष् तया कथनम् असाध्यम् पर्याप्तम् अत्र किमस्ति जलचषक उपमेन जलचषकस्य उदाहरणं दत्त्वा एकः प्राध्यापकः कक्षायां बोधनं करोति ह हस्ते चषकः अस्ति चशके जलं आसीत् ग्लास आफ़् वाटर् इति तत्र हा हस्तेन चषकम् गृहीत्वा सर्वान् सः अपृच्छत् हा सः पृष्टवान् हा किं प्रश्नः कः एतस्य जलचषकस्य भारः कियान् स्यात् ह इत्युक्ते अनुमानं कुर्वन्तु तस्य भार इत्युक्ते वेट. किं भवितुमर्हति अधुना सह एव पर्यायाः ददाति शतग्राममित ग्राम इत्युक्ते ग्राम शत हण्ड्रेड् सार्धैकशत सार्धैकशत इत्युक्ते वन् फ़िफ़्टि वा उत् द्विशत टु हण्ड्रेड् उत् इतो अह इतोपि अधिकः इतोपि अधिकः वा ओर् सं मोर् देन् देट् 100, 150, 200, टु हण्ड्रेड् ओर् मोर् देन् देट् इति सः पृच्छति छात्राः किं वदन्ति तत् वक्तुं न अर्हामः वयं वयं वक्तुं न अर्हामः इत्युक्ते वि आर् नाट् इन अ पोसिशन् टु टेल् यु लैक् देट् यावत् चषकस्य तोलनं न भवति तावत् भारस्य निष् निष्कृष्टतया कथनम् असाध्यम् इत्युक्ते तोलनं वेयिङ्ग् इति न अभवत् खलु कथं वयं वक्तुं शक्नुमः कियद् भारः कियान् भारः भवितुमर्हति इति तत् वयं न शक् वक्तुं शक्नुमः यतो तत् चषकस्य तोलनं न अभवत् तत् असाध्यं कथनं वयं केवलं दृष्ट्वा वक्तुं न शक्नुमः तस्य तोलनं करणीयं तदा एव वयं वक्तुं शक्नुमः कियान् भारः भवेत् इति छात्राणाम् उत्तरम् अधुना अग्रे किम् भव अभवत् पश्यामः हा गीताञ्जलि भगिनी अस्तु नाम हा भगिनि अस्तु नाम अपरः प्रश्नः मम एतं जलचषकं यदि अहं दशनिमेषान् एवमेव गृहि गृह्ण गृह्णीयां तर्हि किं भवेत् प्रायः कोऽपि क्लेशः न भवेत अवदत् छात्राः यदि घण्टां यावत् चशकम् हस्तेन गृह्णीयां तर्हि भवता हस्तवेदना प्राप् प्राप्येत युक्तम् उक्तम् दिनं यावत् यदि गृह्येत तद् तदा तु समग्रे बाहौ भवता वेदना प्राप्येत निश्चलस्थितिकारणतः हस्तः कार्यसमर्थः भवेत् पादौ वेदनायुक्तौ शाताम् इति अवदत् अपरः महतीं दे वेदनां प्राप्य भवान् चिकित्सालयम् गच्छेत् अस्माभिश्च अन्यः अध्यापकः अन्वेष अन्वेष्टव्यः भवेत् इति सर्वे हसितवन्तः पर्याप्तम् अधुना पश्यन्तु तत्र भारः विषये तु वक्तुं न शक्नुमः तोलनं न भवेत् तोलनं न अभवत् तदा वक्तुं न शक्नुमः इति छात्राः वदन्ति तदा इतोपि सः प्रश्नं पृष्टवान् प्राध्यापकः प्रश्नं पृष्टवान् अपरः प्रश्नः मम एतत् जलचषकम् यदि अहं दशनिमेषान् एवमेव गृह्णीयाम् तर्हि किं भवेत् अधुना मम हस्ते चषकः चषके जलमस्ति दशनिमेषयावत्पर्यन्तम् अहं तथैव स्थितवान् यदा हा हस्ते चषकः तदा दशनिमेषान् एवम् एव गृह्णीयाम् तर्हि किं भवेत् छात्राः वदन्ति प्रायः कोऽपि क्लेशः न भवेत् इत्युक्ते भवान् दशनिमेषसमये दशनिमेषान् तत् दशनिमेषान् तस्य ग्रहणं शक्यते इति प्रायः कोऽपि क्लेशः न भवेत् कोऽपि पीडा वा कोऽपि वेदना कापि वेदना हस्ते न सम्भवति दशनिमेषान् यदा भवान् गृह्णीतवान् तदा इतोपि प्राध्यापकः पृच्छति यदि घण्टां यावत् चषकं हस्तेन गृह्णीयां अस्तु दशनिमेषान् गृह्णामि तत् किमपि न भवति घण्टां यावत् यदा गृह्णामि तत् किं भवति तथैव अहं स्थितवान् हस्ते चषकं चश् चस... चषके जलमस्ति यावत् अहं तथैव स्थितवान् यदा तदा किं भवति यदा घंटा यावत् गृह्णोमि घण्टा यावत् तस्य ग्रहणं करिष्यामि तदा किं भवति अधुना छात्राणाम् उत्तरं भवता हस्तवेदना प्राप्येत् पश्यन्तु घण्टां यावत् यदा चषकं गृह्णीयां गृह्णीयात् किं भवति हस्तवेदना तु भवति एव हा जलमस्ति जलस्य भारः अधुना चषकस्य भारः तत्र हस्त तथैव तथैव यदा स्थितवान् सः तेन वेदना तु भवेत् भवता हस्तवेदना प्राप्येत सः वदति सत्यं युक्तमुक्तम् इत्युक्ते योग्यमस्ति समीचीनमस्ति दिनं यावत् यदि गृह्णेत् चेत् अधुना दशनिमेषान् किमपि न अभवत् घण्टां यावत् हस्तवेदना सौम्यप्रकारेण तु भवति एव अधुना दिनम यावत् एकं दिनं तथैव हस्ते चषकः चशके जलं दिनम यावत् तथैव अहं स्थितवान् चिन्तयतु तदा किं भवति तदा छात्राः वदन्ति समग्रे बाहो भवता वेदना प्राप्येत् अधुना केवलं हस्तवेदना इति न समग्रबाहो सम्पूर्णतया आर्म् इति तत्र स्कन्धमस्ति अनन्तरं तत्र सर्वेषु स्थलेषु तत्र हस्ते सम्पूर्णहस्ते सम्पूर्णबा बाहौ इति सम्पूर्णतया तत्र वेदना बाहु अस्ति तत्र वेदना प्राप्यति निश्चलस्थितिकारणतः हस्तः कार्य असमर्थः भवेत् तत्र निश्चलस्थिति तेन किं भवति कार्य असमर्थः तत्र हस्तः भवान् हस्तः हस्तस्य चलनं कर्तुं न शक्नोति इति प्रायेण हा निश्चलस्थितिकारण तत्र निश्चलस्थितिकारणतः निश्चलस्थितिकारणात् हस्तः कार्यस्य कृते असमर्थः भवितुम् अर्हति शनैः शनैः पादौ अपि वेदनाम् पादौ अपि वेदनायुक्त पादौ पादद्वयं तत्र अपि वेदना स्याताम् मर्हति अग्रिमे अधुना एकः तत्र छात्रः तत्र पतति विनोद इति महतीं वेदनां प्राप्य भवान् चिकित्सालयं गच्छेत् हा दिनं तथैव यदा भवान् स्थितवान् तेन वेदना इतोपि वेदना वेदनायाः वर्धनं भवेत् तेन चिकित्सालयं कन्सल्ट् डाक्टर् इति चिकित्सालयं गच्छेत् तेन किं भवति यदा भवान् चिकित्सालयं गमिष्यति तदा अस्माभिः अन्यः प्राध्या अन्वेष्टव्यः इति अस्माकं कृते अन्यप्राध्यापकस्य तत्र चयनम् आवश्यकम् अन्वेष्टं तत्र वयं कः पठ पठिष्यति तत्र अन्यम् इति तत्र विनोद इति अवदत् अन्य एतत् श्रुत्वा सर्वे हसितवन्तः अस्तु एतावत्पर्यन्तं स्पष्टमस्ति स्पष्टमस्ति एतावत्पर्यन्तम् न श्रूयते वाष्टमस्ति हा अधुना अग्रिमे वीणा भगिनी पठतु अग्रिमे किम् आस्ताम् नामसा सा कथा तथा आस्ताम् नाम सा कथा पूर्वो पूर्वोक्तेषु सर्वेषु प्रसङ्गेषु किम् चषकस्य भारे भेदः भवेत् न इति अवदन् सर्वे छात्राः एवम् तर्हि hmm. एतस्याः वेदनाया, वेदनाया hmm. वेदना वेदनायाः कारणम् किम् वेदनानिवारणाय मया किम् करणीयम् अपृच्छत् अध्यापकः hmm. उत्तरम् अजानन्तः सर्वे मौनेन स्थितवन्तः अन्ते एकः उत्थाय अवदत् भवता चषकः भूमौ स्थापनीयः hmm. किमस्ति अधुना uh -huh. आस्ताम् नाम सा कथा पूर्वो तेषु सर्वेषु प्रसङ्गेषु चषकस्य भारे भेदः भवेत् इत्युक्ते आस्तां नाम सा कथा एतत् कथा तु भवतु नाम परन्तु यदा अहं दशनिमेषान् चषकं गृह्णामि अनन्तरं घण्टां यावत् चषकं गृह्णामि दिनं यावत् चषकं भारे भेदः अस्ति वा न भगिनि चषक न चषक तत्र शशकस्य भारः तु निश्चितरूपेण तत्र पूर्वे एवम् आसीत् तत्र कोऽपि भारे कोऽपि परिवर्तनं न भवति न इति अवदन् सर्वे छत्राः सर्वे छात्राः अवदन् न भेदः अधुना सः पृच्छति पिरन्तु वेदनायाः तु वर्धनं भवति दशनिमेषान् न कापि वेदना घण्टां यावत् किञ्चित् वेदना दिनं यावत् समग्रे बाहो वेदना तत्र वेदनायाः कारणं किं वेदनानिवारणाय वेदना मया किं करणीयम् इति अध्यापकस्य प्रश्नः अत्र सर्वे प्रथमता तु मौनेन एव स्थितवन्त यदा छात्राः न जानन्ति तदा मौनेन मौनं धारयन्ति किमपि न उक्तवन्तः सर्वे अन्ते एकः छात्रः उत्थाय आफ्टर् गेटिङ्ग् अप् उत्थाय अत्रापि स्थादाय उत्थाय अवदत् भवता चषकः भूमौ स्थापनीय किं करणीयम् किमपि न करणीयं तत्र वेदना भूमौ स्थापयतु हस्ते मा वृह्णातु इति उक्तवान् तदेव वेदनायाः हा शमनं केन भवति हस्ते मा गृह्णातु भूमौ स्थापयतु इति एकः हा अवदत् अधुना अधुना पश्यन्तु अत्र किम् अभवत् हा अस्तु हा श्यामलाभगिनी भवती पठति वा अग्रिमे युक्तम् एव भव युक्तम् एव उक्तं भवता ततः युक्तम् उक्तम् दिनं यावत् यवी गृह्येत् अत्र अत्र युक्तम् भगिनी युक्तम् एव उक्तं भवता तथा आरभ्य पठतु यु, युक्तम् एव यु, युक्तम् एव कुत्र अस्ति अत्र अस्ति खलु पश्यन्तु न युक्तम् एव उक्तं भवता एषः एव योग्यः क्रमः जीवेन समस्यानां विषये शे, विषयेपि प्रायः एवमेव व्यवह व्यवहरणीयम् किञ्चित् कालं तासां धरणतः न कोऽपि विशेषक्लेशः दीर्घकालं तासां धरणतः वेदनाः उत्पद्यन्ते अतिदीर्घकालं hmm. करणतः ताः असह्याः भवन्ति तदा किमपि कर्तुं सामर्थ्यम् एव न भवति पर्याप्तम् किमस्ति युक्तम् एव उक्तम् भवता समीचीनम् एव वक्तव्यं भवता किम् एषः एव योग्यः करं आ, तत्र वेदनानिवारणार्थं चशकः भूमौ स्थापनीयम् एतत् एव उपायः जीवने समस्यानां विषये अपि प्रायः एवम् एव व्यवहरणीयम् आचरणीयम् वट् इस् टु बि फालोड् जीवने समस्यानां विषये अपि किमस्ति किञ्चित् कालम् तासां धरणतः न कोऽपि विशेषः क्लेशः पश्यन्तु तत्र क्लि कारक घटना अभवत् किञ्चित् कालं तु मनसि विचाराः सन्ति दुःखम् एव तत्र मनसि आगच्छति तत्तु सामान्यरूपेण कोपि विशेषः क्लेशः इति मास्तु परन्तु अग्रिमे दीर्घकालं तासां तासाम् इत्युक्ते समस्यानां विषये धरणतः धारणं कुर्मः चेत् वेदनाः उत्पद्यते प्रातःकाले किमपि अभवत् किमपि एका घटना तेन मनसि घटना इति चिन्तयामः तत्र दशनिमेषा निमेषान् निमीशा, तत्र मनसि आगच्छति न विशेषक्लेशः परन्तु घटिकाद्वयं घटिकात्रयं तस्य अपि विचार तस्याः एव विचारेण मम मनसि वेदना एव आगच्छन्ति वेदनाः उत्पद्यन्ते दीर्घकालं धरणतः अतिदीर्घकालं धरणतः दिनद्वयं दिनत्रयं सप्ताहे घटनायाः एव चिन्तनं यदा तदा किं भवति असह्याः भवन्ति तदा किमपि कर्तुं सामर्थ्यं एव न भवति अतिदीघ कालम तस्वित मसयावतयाव तित कि कर्म सामर्थ्यम नवती अधुना अंतिम परिच्छेद हाँ कठती अन्द्र गीताञ्जलिभगिनी वा गी, गीता गीताभगिनी वा जयन्ती भगिनी पठितुं शक्नोति वा अस्तु नास्ति चेत् कोऽपि पठतु श्यामला भगिनी पठितवती श्यामला भगिनी पठितवती गीताञ्जलिनी गीताञ्जलिभगिनी वा कोऽपि काचित् गीताञ्जलिभगिनी पठतुम् समस्यानां विवरणाय चिन्तनं युक्तम् एव किन्तु दिनस्य अन्ते ताः एकत्र स्ता स्थापनीयः शिरसि एव ताः धृता चेत् क्लेशः वर्धन्ते समस्याः क्लेशाः वर्धन्ते समस्याः पार्श्वे स्थापिताः चेत् अनन्तरदिने अत्यनसमये शरीरे उत्साहः उत्साहः दृश्यते शक्तिः प्राप्यते समस्यानां निवारणाय मार्गः दृश्यन्ते कष्टानां य धैर्यं प्राप्यते अतः एव hmm. गीतायाम् उच्यते यत्करोषि hmm. यत्करोषि यश्राश्रास्यसि श्रा, oh, यदश् ये, नासि यदश् नासि तदासि यत् यत् पश्यसि कौन्तेय तत् कुरुष्व मदर्पणम् इति अत्र चषकः जलयुक्तं जलयुक्तचषकः तत्र उदाहरणं दृत् उदाहरणम् उदाहरणेन तत्र प्राध्यापकः किं वक्तुम् इच्छति समस्यानां निवारणाय चिन्तनं युक्तमेव समस्या पुरतः आगच्छति चिन्तनं तु आवश्यकम् समस्यायाः निवारणं कथं करणीयं तस्य विषयकचिन्तनं तु आवश्यकं किन्तु दिनस्य अन्ते ताः एकत्र स्थापनीयाः शिरसि एव ताः धृताः चेत् क्लेशाः वर्धन्ते शिरसि इत्युक्ते मनसि समस्या एषा समस्या अनन्तरम् एषा समस्याः सर्वेषां सर्वासां समस्याः चिन्तनं न no. क्लेशाः तेन वर्धते क्लेशाः वर्धन्ते समस्याः पार्श्वे स्थापिताः चेत् वयम् आङ्ग्लभाषायां वदामः खलु बेक् आफ़् द मैण्ड् इति पार्श्वे स्थापिताः चेत् अनन्तरदिने उत्थानसमये पेन् यु गेट् अप् आन् द वेरि नेक्स्ट् डे शरीरे उत्साहो दृश्यते शक्तिः प्राप्यते निवारणाय मार्गाः दृश्यन्ते केवलं समस्यानां चिन्तनं स्थिरसि समस्या समस्यानां ग्रहणम् इति न तेन किं भवति क्लेशवर्धनमेव परन्तु यदा वयं पाशवे तेषां स्थापनं कुर्मः तदा किं भवति पार्श्वे तासां स्थापनं कृत्वा अनन्तरं द्वितीये दिने शरीरे उत्साहः समस्यानां निवारणार्थं मार्गं दृश्यते प्रश्नानां सम्मुखीकरणाय धैर्यं प्राप्यते सम्मुखीकरणानि इत्युक्ते टु फेस् द केलामिटि इति फेस हा सम्मुखीकरणाय इट्स् टु फेस् धैर्यं धैर्यस्य आवश्यकता अतः कथम् एतत् सर्वं भवति तद्गीतायाम् एकं श्लोकं तत्र तस्य अत्र दृश्यते किं यत् करोषि यदश्नासि यत यज्जुहोसि यत ददासि यत् यत् तपस्यसि कौन्तेय मदर्पणम् इत्युक्ते भगवान् वदति हे कौन्तेय कौन्तेय इत्युक्ते कः कौन्तेयः अर्जुनः हे कौन्तेय यत् भवान् करोषि यत् अश्नासि अश्नासि इत्युक्ते खादनं भोजनं यत् अश्नासि यत् जुहोषि जुहोषि इत्युक्ते दान दानकार्यं वा यज्ञकारणं यज्ञ यज्ञ इत्युक्ते यज्ञ इत्युक्ते तत्र अधुना तत्र दानं वा कार्यम् इति चिन्तयतु यद् ददासि यत् यद तपस्यसि एवं सर्वं यत् किमपि करोषि हे कौन्तेव तत् मदर्पणं कुरुष्व कृष्णाय समर्पयतु इति हा तत् कृष्वमदर्पणं तस्य अर्पणं करोति त्वं यत् करोषि यत् खादसि तत्र यत् अर्पयसि जुहोसि यज्ञे यत अर्पयति यत् ददासि इत्युक्ते प्रयच्छसि तत् सर्वं यत् तपः आचरसि तत्सर्वं वासुदेवाय कृष्णाय समर्पयतु तत् वासुदेवाय इति मत्वा वासुदेव इति बुद्ध्या मह्यम् एव समर्पय तस्यत् इति एवम् खलु एतेन किम् भवति चिन्तायाः भवति श्रेयः प्राप्यसे प्राप्स्यते अर्पणम् कृत्वा सर्वम् कृष्णार्पणम् इति विचिन्त्य कार्यम् करोतु केवलम् समस्यायाः चिन्तनं चिन्तनं चिन्तनम् तेन पीडावर्धनम् क्लेशवर्धनम् एव निष्पद्यते अतः यत्किमपि करोमि दिने तत् कृष्णाय अर्पणम् करोमि इति चिन्तनम् स्पष्टं वा परन्तु भगिनी एकं प्रश्नमस्ति एतत् श्लोकस्य तु वदति इत्युक्ते इत्युक्ते तत्र पश्यन्तु तत्र समस्याः सन्ति तत्र समस्याः सन्ति तत्र चिन्ताः चिन्तानामेव तथा ग्रहणं भवति परन्तु यत्र अहम् एवं करोमि इति आत्र हा अस्तु वेदनाया इत्युक्ते पश्यन्तु दिने यदा मम समस्याया मम मम जीवने यदा समस्यायाः भारमस्ति तत् किमर्थं तत्र चषकस्य भूमौ स्थापनं यदा भवे तदा वेदनायां वेदनायाः परिहरणम् अभवत् खलु हा इति सर्वं मम एव कार्य अहमेव करोमि अहमेव करोमि इति चिन्तनं मास्तु अहं वासुदेवाय समर्पयामि यत् किमपि भवति तत् भगवतः इच्छानुसारेन एव भवति अधुना यदा अहं चिन्तयामि अहं पाठयामि अहं पठामि अहं पाकशालां गच्छामि अहम् अहम् अहं तत् अहङ्कारवृत्या अहं वर्तनं करोमि तदा अधिकं भारमस्ति खलु पश्यन्तु तदा बहुत्र तत्र दृश्यते कथम् अहम् एवं करोमि कथम् एवम् अहं करोमि तत्र एकम् उदाहरणं ददामि तत्स उत्सवप्रसङ्गे पश्यन्तु उत्सवनवरात्र उत्सवप्रसङ्गे हा बहूनि कार्याणि सन्ति तत्र गृहे हा नवरात्र उत्सवप्रसङ्गे वा गणपति उत्सवप्रसङ्गे तत्र बहुनी कार्याणि सन्ति यदा वयं चिन्तयामः मया एवं करणीयम् एतत् सर्वम् अस्माभिः करणीयम् परन्तु यदा देवताया वा देव्याः अधिष्ठानं मनसि स्थापयित्वा वयं वर्तनं कुर्मः अस्तु इति भगवत् भगवति उत्सवः भगवतः उत्सवः तत् सर्वम् एवं सर्वं भविष्यति सर्वं सम्यक् एव भविष्यति अहं करोमि अहं करोमि अहम् एवं करोमि इति विचिन्त्य कार्यकरणीयं तु अस्माकं कर्तव्यमस्ति तत्र कार्य इति अस्माकं दायित्वं परन्तु कृष्णाय समर्पयामि तत्र दोषाः सन्ति चेदपि कृष्णाय समर्पयामि उत्तमरीत्या तत् अभवत् दोषाः न सन्ति तदापि कृष्णाय समर्पयामि अहं कृतवती अतः तत्र न दोषाः एतव कस्यापि दोषः तत्र एवं योग्यं न अभवत् तेन तस्मात् कारणात् एव न इति चिन्तनमेव मास्तु यदा सः प्राध्यापक भूमौ चषकं स्थापितवान् तदा वेदनायाः परिहरणं शिरसि हस्तेन गृहीत्वा सः तत्र तिष्ठवान तस्य स्थितवान् तदा वेदना वेदना वेदना इत्युक्ते मम समर्पणं बुद्ध्या समर्पणं यदा भवति तदा वेदनायाः परिहरणं भवति इति yeah, अस्तु hmm. भगिनि अस्तु अधुना अन्यैः किं वक्तव्यं वक्तुमिच्छति वा अन्य कोऽपि विना yeah. भगिनी भवती एव वक्तुमिच्छति श्यामला भगिनी गीताभगिनी वदन्तु एकमेकं एकम। yeah. कोऽपि समस्या दीर्घकालं yeah. न चिन्तनीयं भगिनी दशसहस्र समाधानम् अन्वेषणं न प्राप्नोति चे, अनन्तरदिने मार्गं मेबि ओपन्ते मार्गं लभ्यते सम्यक् बहु सम्यक् बहु सम्यक् सम्य। दीर्घकालयावत् तस्य एव चिन्तनं मा करोतु तदा मनसि भगवतः अधिष्ठानम् अस्ति तदा तत् चिन्तनं न भवति यदा अहमेव तस्य परिहारं करोमि अहमेव मार्गं मार्गस्य विषये चिन्तनम् अहम् अहं यदा भवति चेत् तस्य दीर्घकालयावत् एक एकस्य विषयस्य एव मनसि चिन्तनं भवति तत् मास्तु इति कथा वदति योग्यं दीर्घकालयावत् चिन्तनं न अन्य कोऽपि वक्तुम् इच्छति वा गीता भगिनी जय वदामि हा वदतु किमपि वयं चिन्तनं करोति तत् कुर्मः कुर्मः तत् विषये विच्युवेशन् अण्ड् विट् अवर् विं सत्यम् इत्युक्ते तत्र समस्या एका समस्या आम् आम् एका समस्या अस्ति तस्याः एव चिन्तनं करोतु अत्र बहु किमपि चिन्तनम् इति न भवतु इति योग्यं योग्यं सत्यं वीणा भगिनी वक्तुम् इच्छति वा यस् भगि अस्माकम् एकं क्लिष्टः स्थितिः अत्र अस्ति वेदनया वेद यदा अहम् अहं वेदने अस्मि अनु अनुभवामि तदा किं करिष्यामः कथं करिष्यामः किं करिष्यामः प्रश्नः अस्ति वा भवत्याः हा भगिनि कथं कुर्मः पश्यन्तु तत्र वेदना वेदना अस्ति हा चिन्तयतु वेदना अस्ति प्रथमतः तु वेदनायाः कारणं किम् अत्र सः महोदय प्राध्यापकमहोदय चषकं धृत्वा दिनं यावत् तत्र तिष्ठवान् तस्य आवश्यकता अस्ति वा hmm. अधुना त्वह hmm. वर्षा भविष्यति वा इति तस्मात् मम वेदना आवश्यकता अस्ति वा अद्य तस्य चिन्तनं भवतु नाम वृष्टिः भवेत वा न भवेत। श्वः पश्यामः बहुवारं वयं किं कुर्मः चिन्तनवेदनायाः कारणं किम् अधुना शरीरे के दोषाः सन्ति तस्य चिकित्सालयं तु गन्तव्यमस्ति परन्तु यस्य आवश्यकतामेव नास्ति तस्य चिन्तनं मा करोतु यतोहि कृपया अहम प्राप्तवती तथा शगवत एव भगवत कृपया सर्वं सर्विष्य कि वृथा अने चिंतन अस्त भगनी हाँ बहुवार शिरोवेदना अस्कं अयोग्यचिन्तनम् इति खलु अयोग्यमिति अयोग्यमिति न वक्तुं शक्नुमः भगिनि यदा वेदना अस्ति तदा तु वेदना अस्ति वायं सत्यं सत्यं तत् शिरोवेदना इत्युक्ते बहुवारं सैकोसोमेटिक् इति अस्ति खलु सिटि तथा परन्तु यदा शरीरे पीडा शरीरे दोषाः तत्तु चिकित्सालयं तु गन्तव्यमेव परन्तु चिकित्सालयम् अस्तु श्वः अहं गमिष्यामि श्वः एव गमिष्यामि अन्यानि कार्याणि सन्ति परन्तु अन्यानि कार्याणि भवतु नाम अहं किमपि न करिष्यामि प्रथमता तु चिकित्सालयं गमिष्यामि अधुना चिकित्सालयस्य मम निर्णयः हा चिकित्सालयं गन्तव्यम् मम निर्णयः अधुना अन्येषां कार्याणां विषये वृथा चिन्तनं मास्तु तत्पार्श्वे स्थापयन्तु mm -hmm. अन्यानी कार्याणि सन्ति पार्श्वे स्थापयन्तु प्रथमता तु चिकित्सालयम् परन्तु mm -hmm. अस्माकं चिन्तने अस्तु अन्यानि कार्याणि चिकित्सालयमपि मया गन्तव्यं कथं करोमि एतत् सर्वेषां विषयकच सर्वेषां विषयाणां यदा चिन्तनं भवति चेत् किं भवति इतोपि वर्धनं शिरोवेदनया खलु mm -hmm. हा अस्तु भगिनि मया किं पृष्टवती अहम् अद्य अद्य दिने अत्र केरलदेशे केरलराज्ये आगच्छति आगच्छति हा अत्र वेदनया वेदनया कृते अत्र आर्यवैद्यशाला इति आयुर्वेद आयुर्वेदशालाम् अस्ति अत्र तत्र पञ्चकर्मचिकित्सा इति वा उत्तममस्ति तत्तु केरला आयुर्वेदशाला अस्तु अस्तु कति दिन यावत् भवति तत्र ट्रीट्मेण्ट् बहु सम्यक् तु hmm. ते सर्वमेवं तत् जलपानम् एवं तत् तत भोजनमपि आयुर्वेद आयुर्वेदिकशास्त्रदृष्ट्या एवं ते ददाति खलु बहु सम्यक् बहु सम्यक् उत्तमं अस्तु वयं स्थगामः अस्तु सर्वेषां शान्तिमन्त्रं कोऽपि वदति वा समापयामः हा वदतु वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भवेत् ॐ शान्ति शान्ति शान्तिः